अथ पञ्चचत्वारिंशः सर्गः विश्वामित्रवचुत्वा राघवः सः लक्ष्मणः विस्मयम् परमम् गत्वा विश्वामित्रमथाब्रवीत् अत्यद्भुतमिदम् ब्रह्मम् कथितम् परमम् त्वया गङ्गावतरणम् पुण्यम् सागरस्यापि पूरणम् क्षणभूतेव नौरात्रिः संवृत्तेयम् इमाम् चिन्तयतो सर्वाम् निखिलेन कथाम् तवा तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह जगामचिन्तयानस्य विश्वामित्रकथाम् शुभाम् ततः प्रभाते विमले विश्वामित्रम् तपोधनं उवाच राघवो वाक्यम् कृता गता भगवती रात्रिः श्रोतव्यम् परमम् श्रुतम् तरामसरिताम् श्रेष्ठाम् पुण्याम् त्रिपथगा नदी नौरेशा हि सुखास्तीर्णा ऋषीणाम् पुण्यकर्मणा भगवन्तमिह प्राप्तम् ज्ञात्वा त्वरितमागता तस्य तद्वचनम् श्रुत्वा राघवस्य महात्मनः सन्तारङ्कारयामास सर्षिसङ्घस्य कौशिकः उत्तरम् तीरमासाद्य सम्पूज्य ऋषिगणम् ततः गङ्गाकूले निविष्टास्ते विशालाम् ददृशः पुरी ततो मुनिवरस्तूर्णम् जगामसहराघवः विशालान्नगरीम् रम्याम् दिव्याम् स्वर्गोपमाम् तदा अथ रामो महाप्राज्ञो विश्वामित्रम् महामुनिम् पप्रच्छप्राञ्जलिर्भूत्वा विशालामुत्तमाम् पुरीम् कथमो राजवंशोऽयम् विशालायाम् महामुने श्रोतुमिच्छामि भद्रम् ते परम् कौतूहलम् हि मे तस्य तद्वचनम् श्रुत्वा रामस्य मुनिपुङ्गवः आख्यातुम् तत्समारे विशालायाः पुरातनम् श्रूयताम् रामशक्रस्य कथाम् कथयतः अस्मिन् देशे हि यद्वृत्तम् शृणुतत्वेन राघव पूर्वम् कृतयुगे रामदितेः पुत्रा महाबलाः अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः ततस्तेषाम् न रव्याघ्रबुद्धिरासीन्महात्मना अमरा विजराश्चैव कथम् स्यामो निरामयाः तेषाम् चिन्तयताम् तत्र क्षीरोदमथनम् कृत्वा रसम् प्राप्स्याम तत्र वै ततो निश्चित्यमथनम् योक्तम् कृत्वा च वासु मन्थारं मन्थारम् मन्दरम् कृत्वा ममन्थुरमितौ जसः अथ वर्षसहस्रेण योक्तसर्पशिरांसि च ममन्तोऽतिविषम् तत्र तदम् शुर्दशनैः शिलाः तेन दग्धम् जगत् सर्वम् स देवासुरमानुषम् अथ देवा महादेवम् शङ्करम् शरणार्थिनः जग्मुः पशुपतिम् रुद्रम् त्राहित्राहीति तुष्टुवुः एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः प्रादुरासीत्ततोऽत्रैव शङ्खचक्रधरो हरिः उवाचैनम् स्मितम् कृत्वा रुद्रम् शूलधरम् हरिः दैवतैर्मथ्यमाने तु यत्पूर्वम् समुपस्थितम् तत्त्वदीयम् सुरश्रेष्ठसुराणामग्रतो हि यत् अग्रपूजामि हस्थित्वा ग्रहाणेदम् विषम् प्रभो इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत देवतानाम् भयम् दृष्ट्वा श्रुत्वा वाक्यम् तुषाम् गिणः हालाहलम् विषम् घोरम् सञ्जग्राहामृतोपमम् देवान् विसृज्य देवेशो जगाम भगवान्हरः ततो देवासुराः सर्वे मम रघुनन्दना प्रविवेशाथ पातालम् मन्थानः पर्वतोत्तमः ततो देवाः स गन्धर्वाः स्तुष्टु गुर्मधुसूदनम् त्वम् गतिः विशेषेण दिवौकसाम् पालयास्मान्महाबाहो गिरिमुद्धर्तुमर्हसि इति श्रुत्वा हृषीकेशः कामठम् रूपमास्थितः पर्वतम् पृष्ठतः कृत्वा शिष्ये हरिः पर्वताग्रन्तु लोकात्मा हस्तेनाक्रम्य केशवः देवानाम् अथ वर्षसहस्रेण आयुर्वेदमयः उदतिष्ठत्सु धर्मात्मा सदण्डः पूर्वम् धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः अप्सुनिर्मथनादेव रसात्तस्माद्वरस्त्रियः उत्पेतुर्मनुजः श्रेष्ठतस्मादप्सरसोऽभवन् षष्टिः कोट्योऽभवंस्तासामप्सराणाम् सुवर्चसाम् असङ्ख्येयास्तु देवदानवाः अप्रतिग्रहणादेव ता वै साधारणा स्मृताः वरुणस्य ततः कन्या वारुणी रघुनन्दना उत्पपातमहाभागा मार्गमाणा परिग्रहम् द्रितेः पुत्राणताम् राम जगृहुर्वरुणात्मजा अदितेस्तु सुता वीरजगृहोस्तामनिन्दिताम् असुरास्तेन दयितेयाः सुरास्तेनादितेः सुताः कृष्टाः प्रमुदिताश्चासन् वारुणी ग्रहणात्सुराः उच्चैः श्रवाः यः श्रेष्ठो मणिरत्नम् च कौस्तुभम् उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् अथ तस्य कृते राम महानासीत् कुलक्षयः अदिते असुराराक्षसैः सह युद्धमासीन्महाघोरम् वीरत्रैलोक्यमोहनम् यदा यदाक्षयं गतम् सर्वं तदा विष्णुर्महाबलः अमृतम् सोहरत्पूर्णम् मायामास्थाय मोहिनी ये गताभिमुखम् विष्णुमक्षरम् पुरुषोत्तमम् सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना अदितेरात्मजा वीरादितेः पुत्रान्निजग्भिरे अस्मिन् घोरे महायुद्धे दयितेयादित्ययोर्भृशम् निहत्यदिति पुत्रांस्तु राज्यं प्राप्य पुरन्दरः शशासमुदितो लोकान् सर्षिसङ्घान् सचारणान। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः